जनमेजय उवाच कथम् विराटनगरे मम पूर्वपितामहाः अज्ञातवासमुषिता दुर्योधनभयार्दिताः पतिव्रतामहाभागा सततम् ब्रह्मवादिनी द्रौपदी च कथम् ब्रह्मन्नज्ञाता दुःखितावसत् वैषम्पायन उवाच यथा विराटनगरे तव पूर्वपितामहाः अज्ञातवा समुषितास्तच्छृणुष्वनराधिप तथा स त्वरम् लब्ध्वा धर्मो धर्मभृताम् वरः गत्वा श्रमम् ब्राह्मणेभ्य आचख्यौ सर्वमेव कथयित्वा तु तत्सर्वम् ब्राह्मणेभ्यो युधिष्ठिरः अरणीसहितम् तस्मै ब्राह्मणाय न्यवेदयत् ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः सन्निवर्त्यानुजान् सर्वा नितिहोवाच भारत द्वादशेमानि वर्षाणि राज्यविप्रोषिता वयम् त्रयोदशोऽयं सम्प्राप्तः